हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे चतुर्दश स्वर्ग श्रीरामस्य अजेयताम् प्रतिपाद्य विभीषणेन रावणं प्रति सीताया रामपार्श्वे प्रेषणायैव सम्मतिदानम् निशाचरेन्द्रस्य निशम्य वाक्यम् स कुम्भकर्ण भीषणो राक्षसराज मोक्षम् उवाच वाक्यम् गृतो हि बाभ्यन्तर भोजराशि चिन्ताविषय सुस्मित तीक्ष्णद्रे पञ्चाङ्गुली पञ्चशिरोति गाय सीतामहाकेन राजन् यावन्न लङ्कां बलिमुखा पार्वतकूटमात्रा धायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली यावन्न गृह्णन्ति चिरांसि बाणा रामेरिताराक्षस पङ्गवाणाम् वज्रोपमा वायुसमान भेगा प्रदीयतां दाशरथाय मैथिली न कुम्भकर्णेन्द्रजितौ च राजन् तथा महापाशमहोदरो वा निकुम्भकुम्भौ च तथातिघाय स्थातुम् समर्था युधि राघवश्च जीवन्तु रामर्चन न भव न पातालमनुप्रविश निशम्यवाक्यं तु विभीषणस्य तथप्रस्तो वचनम् बभाषे न नो भयं विद्मन् दैवतेभ्यो न राणवेभ्योऽप्यथवाकराशीत् न यक्षगन्धर्वमहोरगेभ्यो भयं न सङ्ख्ये पदगोरगेभ्य कथं नु भविता भयं नो नरेन्द्रपुत्रा समरेकदाचित् प्रहस्तवाक्यं पहितं निशम्य विभीषणो राजयितानुकाङ्क्षी ततो महाठम्बचनम् बभाषे धर्मार्थकामेषु निवीच्य बुद्धि प्रहस्तराजा च महोदर च तम्भकर्ण च यथास यथा गति स्वर्गमधर्मबुद्धि वधस्तु रामस्य मयात यत् रहस्य सर्वैरपि राक्षसैर्व कथम् भवेदर्थ विशारदस्य महार्णवम् धर्तुमिवाप्लवस्य धर्मप्रधानस्य महारथस्य इक्वापुंस प्रभवस्य राज्ञ पुरोस्य देवा च कृत्येषु चक्तास्य भवन्ति मूढ तृष्णानता वे तव क्रा दुरासदा राघव विप्रमुक्ता भित्त्वा शरीरम् प्रविशन्ति बाणा बृहस्ततेनैव विकटचेत्थम् वित्वा न तवेत् प्रविशन्ति कायम् प्रणान्ति का सेशनितुल्यवेग शिता र राघ्व प्रमुक्ता प्रहस्तते नैव विकत्थ क्षेत्रम् न ना रावणो नातिबलश्रिशीशो न ना कुम्भकर्णस्य ना सुतो निकुम्भ न चेन्द्रजी दाश्वतिं प्रवोढुं तं वारुणे चक्रसमं समर्थ देवान्तको वापि नरान्तको वा तथापि कम्पनश्चान्द्रीतमानसार स्थातुम् न शक्ता युधिरागवत्य अयम् च राजा वेतनाभिभूतो मित्रै मित्रैः प्रतिमैर्भवद्भिः अन्वास्यते राक्षसनाशनार्थे तीक्ष्णप्रकृत्या ह्य समीक्षकारी अनन्त भोगेन सहस्रमूर्ना नागेन भीतेन महाबलेन बलात् भवन्तो, भवन्तु राजा विमोचयन्तु यावद्धि केश ग्रहणासुहृद्भिः समेत्य सर्वैः परिपूर्णकामै निगृह्य राजा प्रिरक्षितव्यो, परिरक्षितव्यो भूतैर्यथा भीमबलीत सुवारेण राघवसागरेण प्रच्छाद्यमान तरसा भवद्भिः युक्तत्वयम् तारयितुं समेत्य काकुत्थबालमुखे पतन्त इदं पुरस्याक्षसस्य राज्ञस्य पथ्यं सुसुरुज्जनस्य च मग् वाक्यं च मतं ब्रवीमि नरेन्द्रपुत्रा यददातु मैत्रिलीम् परस्य वीर्यं सबलं च बुद्ध्वा स्थानम् क्रियम् चैव तथैव बुद्धिम् तथा स्वपक्षेऽप्यन्मुरुष्य बुद्ध्वा वदे चदे क्षमम् तामिहितम् तु मन्त्री इत्याश्री श्रीमद् रामायणे वाल्मीकीयाधिकारे युद्धकाण्डे चतुर्दश सर्गः